श्रीहरये नमः अथ विंशोऽध्यायः मैत्रेय उवाच भगवानपि वैकुण्ठसाकं मघवथा विभुः यज्ञैर्यज्ञपतिस्तुष्टो यज्ञभुक्तमभाषता यज्ञे श्रीभगवानुवाचा येष ते कार्षीद्भङ्कं हयमेत स तस्यः क्षमापयत आत्मानममुष्य शन्तुमर्हसि सुधीयः साधवो लोके नरदेव नरोत्तमाः नाभिद्रुह्यन्ति भूतेभ्यो यर्हिनात्मा कलेवरं पुरुषा यदि मुह्यन्ते द्वादृशो देवमायया श्रम परं जातो दीर्घया वृद्धसेवया अतः कायमिमं विद्वानविद्या कामकर्मभिः आरब्ध इति नैवास्मिन् प्रतिबुद्धो नुषजते असंसक्तशरीरेऽस्मिन् अमुनोद्बाधिते गृहे अपत्यद्रविणे वापि कः कुर्यान्ममताम्बुधः एकशुद्धस्वयं ज्योतिर्निर्गुणोऽसौ गुणाश्रयः सर्वगोनावृतसाक्षी निरात्मात्मा आत्मनः परः य एवं सन्तमात्मानमात्मस्तं नाज्यते प्रकृतिस्थो बिहद्गुणैः समयि स्थितः यः स्वधर्मेण मां नित्यम् निराशि भजते स न कैस्तस्य मनोराजन् प्रसीदति परित्यक्तगुणः सम्यक् उदासीनमिवाध्यक्षं त्रवज्ञानक्रियात्मनां कूटस्थमिममात्मानं यो वेदोप्नोति शोभनं भिन्नस्य लिङ्गस्य गुणप्रवाहो द्रव्यक्रियाकारकचेतनात्मनः दृष्टासु सम्पत्सु समस्तमोन्नोत्तम थमा मध्यमातमः शुके च दुःखे च जितेन्द्रियाशयः वितस्व वीरा किल लोकरक्षणं श्रेयः प्रजापालनमेव राज्ञो यत्सां पराये सुकृता सष्टमं सं हर्दान्यथा हृत पुण्यप्रजानाम् अरक्षिता करहारोगमध्ये एवं द्विजाज्ञानुमधानुवृद्ध धर्मप्रतान्नोऽन्यतमो वितास्याः ह्रस्वेन कालेन गृहोपयातान् द्रष्टासि सिद्धा ननरुद्धलोकः परं च मत्कञ्चन मानवेन्द्र पृश्नीवदेहं गुणशीलयन्त्रतः नाहं मयि कवैशुलभस्त भोभि योगेन वायत् समचित्तवर्ती मैत्रेय स इत्तं लोगुरुणा विश्वक्सेन विस्वजेत् अनुशासित आदेशं शिरसा जगृहे सभृंसन्तं पाधयो प्रेम्णा विरीडितं स्वेन कर्मणा सतक्रतुं परिष्वज्य विद्वेषं विससर्जः भगवानत विश्वात्मा पृथुनावुपहृतार्हणः समुज्जिहानया भक्त्या गृहीतचरणाम्बुजः प्रस्तानाभिमुकोप्येनम् अनुग्रहविलम्बितः पश्यन् पद्मभला सा शो नः प्रतस्ते सुहृत् स आदिराजो रचिताञ्जलिर्हरिं विलोकितुं ना सकत्तश्रुलोचनः किञ्च नोवाच स बाष्पविक्लवो हृदो बगुह्यामं मधा तव स्थितः अतावं रुज्जाश्रुकला विलोकयन् अतृब्धदृक्गोच्चरमाहपूरुषं पधा स्पृशन्तं वरान्विभो त्वत् वरदेश्वराभुथ कथं वृणीते गुणविक्रियात्मनां ये नारकाणामपि सन्ति देहिनां तानीस कैवल्यपते वृणेन च न कामयेनाथ तथ व्यहं क्वचित् न यत्र युष्मच्चरणाम्बुजासवः तमुत्तमश्लोकमखन्मुखश्युतो भवद्गणानिलखा स्मृतिं पुनर्विस्मृतत्ववर्तमानां कुयोगिनां नो वितरत्यलम्बरैः यशिवं सुश्रव आर्यसङ्गमे यदृश्चया च उपशृणोति सकृत कथं गुणज्ञो विरमेत् विना पशुं अथाब भजेत्वा किल पुरुषोत्तमं गुणालयं पद्मकरे बलालसः अभ्याभयोरेकपतिस्पृधो कलिहेन्न शयात्कृतत्वच्चरणैकथानयोः जगज्जनन्यां जगदीशवैससं स्यादेव यत्कर्मणि नः समीहितं करोषि बल्वभ्युहृदीनवत्सलः स्व एव धिष्णे बिरदस्य चिन्तया भजन्त्यतद्वामतये वसाधवो युधस्तमाया गुणविप्रमोदयं भवत्पदानुस्मरणाधृते सतां निमित्तमन्यद्भगवन्न विद्महे मन्ये ते जगतां विमोहिनीं वरं वृणीष्वेति भजन्तमात्तयद्वचानुतन्त्या यदि दे कथं पुनः कर्म करोति मोहितः त्वन्माययाध्या जन ईश खण्डितो यतन्यथा शास्तऋतात्मनो भूतः यथा चरेद्बालहितं पिता स्वयं तदा त्वमे वार्गसिनः समीहितुं मैत्रेय उवाच इत्यादिराजेननु तस्य विश्वदृक्तमाहराजन्मयि धिष्ठे रुचि धीर्मयिते कृताय मायां मदीयां तरति स्म दुस्तयजां तत्त्वं कुरु मया दिष्टमप्रमत्थः प्रजापते मदादेशकरो लोक सर्वत्राप्नोति शोभनम् मैत्रेय इति वैन्यस्य राजर्षे प्रतिनन्द्यार्थवद्वचः पूजितो त्वैनं गन्तुं चक्रे च्युतो किन्नराप्सरसोमर्त्या खगाभूधान्यनेकषः यज्ञेश्वरधिया राज्ञा वाग्विद्धाञ्जलिभक्तितः सभाजिताय यु सर्वे वैकुण्ठानुगतास्ततः भगवानभिराजर्ष्येषोपाध्यायस्य चाच्युतः हरन्निव मनोमुष्यस्वधाम प्रत्यभद्यत अदृष्टाय नमस्तृप्य नृपसन्तर्सितात्मने अव्यक्थाय च देवानां देवाय ययौ इति श्रीमद्भागवते महापुराणे चतुर्थस्कन्थे विंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहाराज की जय